श्रीहरये नमः षोटशोऽध्यायः श्रीशुक उवाच विलोक्यदू विलोक्यदूषितां कृष्णां कृष्णकृष्णा हिना विभुः तस्याविशुद्धिमन्विच्छन् सर्पं तमुधवासयेत् राजोवाच कथम् अन्तर्जले गदे न्यगृह्णाद्भगवानहिं स वै बहुयुगावासं यथासीत् विप्रकथ्यत ब्रह्मन् भगवतस्तस्य भूम्न स्वच्छधवर्तिनः गोपालोदारचरितं कस्तृप्येतामृतं जुषन् श्रीसुक उवाच कालिन्द्यां काली हृतः कच्चिद्विषाग्निना श्रप्यमाणपया यस्मिन् पतन्त्युपरिघाकघाः विप्रश्मताविशोधोर्मी मारुतेन आभिमर्शिताः म्रियन्ते तीरगायस्य प्राणिनः स्थिरजङ्गमाः तं चण्डवेगविषवीर्यम् अवेक्षतेन, न दुष्टां नदीञ्चन् कलसंयमनावतारः कृष्णकथम्बं मदुरुह्यततोऽतितुङ्गम् आस्फोट्य घाटरसनोऽन्यपधत् विशोदे सर्पह्रतः पुरुषसार निपातवेघ पर्यक्लतो विषकषाय विभीक्षणोमिहि दावन्धनुस्ततमनन्दबलस्य किं तत् तस्य कृते विकरतो भुजदण्डकोर्ण वार्कोषमङ्गवरवारणविक्रमस्य आश्रुत्य तत्स्वधनाभिभवं निरीक्ष्य सक्षुश्रवासमसरत् तदं रुक्ष्यमाणः तं प्रेक्षणीय सुकुमारघनावधातं श्रीवत्स पीतवसनं स्मितसुन्दरास्यं क्रीडन्तम् तं नाकभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखा पशुपा भृशार्थाः कृष्णेऽपितात्मसुहृदर्थकळत्र कामा दुःखानुशोकभयमूढधियो निपेतुः अथ व्रजे मघोत्पातास्त्रिविदाख्यधितारूढाः उत्पेदोर्बुवि दिव्यात्मनि आसन्नभयशंसिनः धानालक्ष्यभयोद्विघ्ना गोपानन्दपुरोगमाः विना रामेणघा कृष्णं तैर्धुर्निमित्तैर्दिधनं मत्वा प्राप्तमधद्विदः तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयादुराख आबालवृद्धवनिताः सर्वे अङ्कः पशुवृत्तयः कृष्णदर्शनलालसहा तांस्तदा कातरान्वीक्ष भगवान्नाथवो बलः प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सह तेऽन्वेषमाणादयितं कृष्णं सुचितयापधैः भगवल्लक्षणैर्जग्मो पथव्यायमुना तटम् ते तत्र तत्राब्जयवाङ्कुशासनी ध्वजोपबन्नानि पदानि विष्पतेः मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणायुयुरङ्गसत्वराः अन्तर्हृदे भुजगभोगपरीतमारात् कृष्णं निरीकमुपलभ्य जलाशयान्ते गोपांश्च मूढधिषणान् परितपशुंश्च संस्क्रन्थतः परमकस्मलमापुरार्थाः गोप्योनुरक्तमनसो भगवति अनन्ते तत्सौ कृतस्मितविलोकगिरस्मरन्त्यः ग्रस्ते हि न प्रियतमे भृसदुःखधब्धाः शून्यं प्रियवतिः कृतं ता कृष्णमातरम् अनुप्रविष्टा तुल्यव्यथासमनुग्रह्य सुचस्वरन्त्यः तास्ताव्रजप्रियकथाकथन्त्य आसन् कृष्णान कृष्णानैर्भिददृशो मृतकप्रतीकाः कृष्णप्राणान् निर्विसतो नन्दादीन् वीक्षतं इत्थं स्वगोकुलम् अनन्यगतिं निरीक्षन् सस्त्रीकुमारम् अदिदुःखितमात्महेतोः आज्ञायमर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठधुरङ्गबन्धात् तत्प्रत्यमानवपुषा व्यतितात्मभोगः त्यक्तो न मय्य कुपितक् स्वपणान् भुजङ्गः तत्तौ स्वसन् स्वसनरन्ध्रवीक्षाम्बरीष स्तप्देशणोल्मुखमुको हरिमीषमाणः परिलेलिहानं द्वे शृक्किणी ह्ययति करालविशोऽग्निदृष्टिं बभ्रामसोऽप्यवसरं प्रसमीक्षमाणः एवं परिब्रह्म कतौजसम् उन्नतां सम् आनन्द्य तत्प्रतुशिरस्वधिरूढ आद्यः तन्मूर्धरत्ननिकरस्पर्शाति ताम्र पादाम्बुजो किलकलादिगुरुर्ननर्थ तन्नर्तुमुद्यतमवेक्षय तदा तदीय गन्तर्वसिद्धसुरचारण देववध्वः प्रीत्या मृदङ्गपणवानकवाद्यगीत क्षीणायुषो भ्रमत उल्भणमास्यतो श्रृह्स्थो वमन्परमकस्मलमापनागः तस्याक्षिभिर्गरलमुद्गमतः शिरःसो यद्यत्समुन्नमति निः स्वसधोरुषोश्चैहे नृत्यन्पधानुनमयन् तच्चित्रताण्डव विरुग्णपणातपत्रो रक्तं मुखैरुपमन्रपभग्नगाद्रः स्मृत्वा चराचर गुरुं पुरुषं पुराणं नारायणं तं मरणं मनसा जगाम कृष्णस्य गर्भजगतोतिभरावसन्नं पार्ष्णिप्रकारपरिरुग्णपणातपत्रम् दृष्ट्वा हिन्माद्यमुपसेदुरमुक्षपद्यः आर्ताश्लतवशनभूषणकेशभन्धः तास्तं सुविघ्नमनसोत पुरस्कृतार्भाः कायं निदाय भुवि भूतपतिं प्रणेमुखो सद्व्यकृताञ्जलिपुटा शरणधं शरणं प्रपन्नाः नाकपत्न्यूचू नायेति दण्डकृतकिल्पिजे अस्मिन् तवावतारकलनिग्रहाय रिपोसुतानामपि तुल्यदृष्टेर्धत्से धमं फलमेवानुशंसन् अनुग्रहोऽयं भवत गृहतो हिनो दण्टोऽसतां ते खलु कल्मषापः यद्दन्तः सुखत्वममुष्य देहि न क्रोधोऽपि ते सम्मतः तपःसु तप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन धर्मो तवा सर्वजनानुकम्पया यतो भवान्स्तुतुष्यति सर्वजीवः कस्यानुभावोऽस्य न देवविद्महे तवाङ्िरेण स्पर्शादिकारः यत्त्वाञ्चया श्रीर्ललनाशरत्तपो विहाय कामान् सुचिरं धृतव्रत न नागपृष्ठं न च सार्वभौमं न पारमेष्ट्यं न न योगसिद्धीयपुनर्भवं वा वाञ्छन्ति यत्पादरचः प्रपन्नाः तदेश नातापदुरापमन्मन्यैस्तमो जनिक्रोधवसोऽप्यै सहा संसारचक्रे भ्रमतः शरीरिणो यदिश्च तस्यात् विभवः समक्षुषः नमस्तुभ्यं भगवते पुरुषाय महात्मने भूतावसाय भूताय पराय परमात्मने ज्ञानविज्ञाननितये ब्रह्मणेऽनन्तशक्तये अगुणाय अविकाराय नमस्ते प्राकृताय च कालाय कालनाभाय कालावयवसाक्षिणे विश्वाय तत्तभद्रष्ट्रे तत्कर्ते विश्वहेतवे भूतमाद्रेन्द्रियप्राणमनोबुद्ध्याश्रयात्मने त्रिगुणेनाभिमानेन घूटस्वात्मानुभूतये नमो अनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते नानाबाधानुरोधाय वाश्च वाचकशक्तये नमः प्रमाणमूलाय कवये शास्त्रयो नये प्रवृत्ताय निवृत्ताय निगमाय नमो नमः नमः कृष्णाय रामाय वासुदेवसुताय च प्रद्युम्नाय अनिरुद्धाय सात्वतां पतये नमः नमो गुणप्रदीपाय गुना गुणात्मच्छादनाय च गुणवृत्त्युपलक्ष्याय गुणदृष्ट्रे स्वसंविधे अव्याकृतविकाराय सर्वव्याकृतसिद्धये ऋषि केश नमस्ते स्तु मुनये मौनशीलिने परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः अविश्वाय च विश्वाय तद्द्रष्टेष्य च हेतवे त्वं ह्यस्य जन्मस्थिति प्रभो गुणैरनीहो तत्तत्स्वभावान् प्रतिबोधयन् सत समीक्षया मोघविकारैकसे तस्यैव ते मूस्तनवस्त्रिलोक्यान् शान्ता अशान्ताबुध बोढयोनयः शान्ताः प्रियास्ते ह्यधुना वितुंसतां स्थातुश्च ते धर्मपरीप्सये हतः अपराधसकृद्भद्रा सोढव्यस्व बृजाकृतः शन्तुमर्हसि शान्तात्मन्मूढस्य त्वामजानतः अनुहृष्णीष्वभगवन् प्राणां त्यजति बन्नगहान् स्त्रीणां न सा विदेहिते किङ्करीणामनुष्ठेयं तवाज्ञया यः श्रद्धया अनुतिष्ठन् वैमुच्यते सर् सर्वतो भयात् श्रीसुख उवाच इत्तं सनाकपत्निभिर्भगवान् समभिष्टुतः मूर्छितं भग्नशिरसं विससर्ज अङ्ग्रिकुट्टनैः प्रतिलब्धेन्द्रियः प्राणकालियः सनकैर्हरिं कृसन् दीनकृष्णं प्राक् कृताञ्जलिः तयं कलासहोत्पत्य तामसा दीर्घमन्यवः स्वभावो दुस्त्यजो नाथ लोकानां यदा सद्ग्रगः त्वया सृष्टमितं विश्वं दधार्गुणविसर्जनं नाना स्वभाववीर्यौ जो यो निबीजासया अयं च तत्र भगवन् सर्पा जाद्युरोमन्यवः कथं त्यजामस्त्वन्मायां दुस्त्यजामोहिता स्वयं भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः अनुग्रहं निग्रहं वा मन्यसे सद्विदेहिनः इत्याकर्ण्यवचः प्राक् भगवान् कार्यमानुषः नात्रस्तेयम् त्वया सर्पसमुद्रं याहिमाचिरं स्वज्ञात्यपद्यधारोढ्यो गोधृपेर्बुज्यथां नदी ययेतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् कीर्तयन्नुभयो सन्त्योर्नपुष्मद्भयमाप्नुयात् योऽस्मिन् स्नात्वा मधा क्रीडें देवादीं स्तर्वये ज्वलैहे उपोक्ष मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते <coughs> द्वीपं रमणकं हित्वा हृदमेतम् उपाश्रितः यद्भयात्सु पर्णस्त्वां नाद्यान्मद्बादलाम् एव एवमुक्तो भगवतो कृष्णेन अद्भुतकर्मणा तं पूजय मासमुदा नागपत्न्यश्च सादरं दिव्याम्बरषक्मणिभे पराध्यैरपिभूषणैः दिव्यगन्तानुलेपैश्च महत्योत्पलमालय पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ततः प्रीतोऽप्यनुज्ञात परिक्रम्याभिवन्द्यतं सकलत्र सुहृत् बुद्धो द्वीपम् अब्धेर्जगामः तथैव साम्रदजलायमुना निर्विशाभवत् अनुग्रहाद्भगवत क्रीटा मानुषरूपिणः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे कालीयमोक्षणं नाम षोटशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमकराजकी जय